कृष्णयजुर्वेदे क्रमपाठे द्वितीयकाण्डे द्वितीयः प्रश्नः प्रारम्भः ओ प्रजापतिः प्रजाः प्रजापतिरिति प्रजापतिरि प्रजा असृजता प्रजा इति प्राजाः सृष्टाः सृष्टा इन्द्राग्नी इन्द्राग्नि अप इन्द्राग्नि इति इन्द्राग्नि अपागोहता अदोहतापंसः सोऽचायत् अचायत् प्रजापतिः प्रजापतिरिन्द्राग्नी प्रजापतिरिति प्रजापतिः इन्द्राग्नी वै इन्द्राग्नी इति इन्द्राग्नि वै मे मे प्रजाः प्रजा अपा प्रजा इति प्राजाः अपाघुक्षताम् घुक्षतामिति इति सः स एतम् एतमैन्द्राण्डम् ऐन्द्राङ्गमेकादशकपालम् ऐन्द्राङ्मित्यईन्द्रान्नम् एकादशकपालम् पश्यत् एकादशकपालमित्येकादशकपालम् अपश्यत्तम् अह्निः निरवपत् अवपत्तौ तावस्मै अस्मै प्रजाः प्रजाः प्रजाः प्रासाधयताम् असाधयतामिन्द्राग्नी इन्द्राग्नी वै इन्द्राग्नीन्द्राग्नी एतस्य एतस्य प्रजाम् प्रजामप प्रजापतिप्राजाम् तव गूहतः मूहतो यः योऽलम् अलम् प्रजायैः सन् प्रजायाजिप्राय सम्प्रजाम् प्रजान्न ऐन्द्राग्नम् एकादशकपालम् ऐन्द्राङ्ग्रान्नम् एकादशकपालनिः एकादशकपालमित्येकादशाकपालम् प्रजाकामः प्रजाकाम इन्द्राग्नी प्रजाकामजि प्रजाकामः इन्द्राग्नी एव इन्द्राग्नी इति इन्द्राग् एव स्वेन स्वेन फलभेदेन भागधेयेनोपभागधेयेने भागाधेयेन उपधावति धावति तौ तावेव एवास्मै अस्मै प्रजाम् प्रजाम्रा प्रजामजित्प्राजाम् प्रसाधयतः साधयतो विन्दतेः इन्दते यत्प्रजाम् प्रजामैन्द्राग्नम् प्रजामजिद्राजाम् ऐन्द्राग्नमेकादशकपालम् ऐन्द्राग्नमित्यईन्द्राग्नम् एकादशकपालन्यः एकादशकपालमित्येकादशकपालम् निर्वपेद् लेत् स्पर्धमानः स्पर्धमानः क्षेत्रे क्षेत्रे वासजातेषु सुजातेषु वा सुजातेष्व जातेषु वेन्द्रानी इन्द्रान्नी एव इन्द्राणी इति इन्द्रान्नी एव भागधेयेनोप भागधेयेनेति भागधेयेन प्रधावति धावतिताभ्याम् ताभ्यामेव एवेन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् भ्रातुर्यस्य भ्रातुर्यस्य वृन्दे वृन्दे वि पाप्मनाः पाप्मना भ्रातुर्येण भ्रातुर्येण जीरे जेरेत अपवि वा एतस्माद् एतस्मादिन्द्रियम् इन्द्रियम् यः सङ्ग्रामम् सङ्ग्राममुपप्रयाति सङ्ग्राममिति सङ्ग्रामम् उपप्रयात्यैन्द्राग्नम् उपप्रयातेत्युपाप्रयाते ऐन्द्राग्नमेकादशकपालम् ऐन्द्राग्न इत्यैन्द्राग्नम् एकादशकपालम् निः एकादशकपालमित्येकादशपालम्पेत् पपेत् सङ्ग्रामम् सङ्ग्राममुपप्रयास्यन् सङ्ग्राममिति सङ्ग्रामम् उपप्रयास्यन्निन्द्राग्नि उपप्रयास्यन्नित्युप प्रयास्यन् इन्द्राग्नी एव इन्द्राग्नि इति इन्द्राग्नि एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति उपधावति धावति तौ तावेव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् धत्तः धत्तः सः सहेन्द्रियेण इन्द्रियेण वीर्येण वीर्येणोप उपप्रयाति याति जयति जयदिदम् तथम् सङ्ग्रामम् सङ्ग्रामम् वि सङ्ग्राममिति सङ्ग्रामम् वि वै वा एषः वेद्येण्यते लुध्यते यः यः सङ्ग्रामम् सङ्ग्रामम् जयति सङ्ग्रामविसङ्ग्रामम् जयत्यैन्द्राग्णम् ऐन्द्राग्णमेकादशकपालम् ऐन्द्राग्नमित्यईन्द्राग्नम् एकादशकपालम् निः एकादशकपालमित्येकादशाकपालम् निर्पेत् लपेत् सङ्ग्रामम् सङ्ग्रामम् जित्वा सङ्ग्राममितिसङ्ग्रामम् जित्तेन्द्राग्नी इन्द्राग्नी एव इन्द्राग्नी इति इन्द्राग्नि एव स्वेन स्वेन भागधेयेन भागधे जेनोप भागधे जेनेति भागाध्ययनेन धावति धावति तौ तावेव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् धत्तः धत्तो नेन्द्रियेण इन्द्रियेण वीर्येण वीर्येणपि यरुध्यते रुध्यतेपवै वा एतस्मात् एतस्मादिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् क्रामति क्रामति यः एति एति जलता जलतामयीन्द्राग्नम् ऐन्द्राग्नमेकादशकपालम् ऐन्द्राग्नमित्यईन्द्राग्नम् एकादशकपालम् निः एकादशकपालमित्येकादशाकपालम् निरुपपेत् उपेद्यताम् जनतामेष्यन् एष्यन् इन्द्राग्नी इन्द्राग्नी एव इन्द्राग्नि इति इन्द्राग्नि एव स्वेन स्वेन भागधेजेन भागधेजेनोपभागधेजेनेति भागाधेदेन उपधावति धावति तौ तावेव एवास्मिन् अस्मिन्निन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् धत्तः धत्तः सः सहेन्द्रियेण इन्द्रियेण वीर्येण वीर्येण जनताम् जनामेति एति पौष्णम् पौष्णम् जनम् चर्मणो अनुनि यर्मपेत्पेत् पूषा पूषा वै वा इन्द्रियस्य वीर्यस्य वीर्यस्यानुप्रदाता अनुप्रदाता पोषणम् अनुप्रदातेत्यनुप्रदाता पोषणमेव एव स्वेन स्वेन भागधेदेन भागधेदेनोपभागधेदेनेति भागाधेदेन दे उपधावति धावति सः स एव एवास्मै अस्मायम् इन्द्रियम् वीर्यम् वीर्यमनो अनुप्राक् प्रयच्छति पृच्छति क्षैत्रपत्यम् क्षेत्रपत्यम् जनुम् क्षेत्रपत्यमिति क्षैत्रापत्यम् शरुणिः भवेद् जनताम् जनतामागत्य आगत्येयम् आगत्येत्या आगत्य इयम् वै वै क्षेत्रस्य क्षेत्रस्य पतिः प्रतिरस्याम् अस्यामेव एव प्रति प्रतिष्ठति तिष्ठत्यैन्द्राग्नम् ऐन्द्राग्नमेकादशकपालम् ऐन्द्राग्नमित्यैन्द्राग्नम् एकादशकपालमुपरिष्टात् एकादशकपालमित्येकादशकपालम् उपरिष्टान्निः निर्पवेर्स्यामेव एव प्रतिष्ठाय प्रतिष्ठायेन्द्रियम् प्रतिष्ठायेति प्रतिष्ठाय इन्द्रियम् वीव्यम् देव्यमुपरिष्टात् उपरिष्टादात्मन् आत्मन् धत्ते धत्त इति धत्ते अग्निये प्रतिकृतेः प्रतिकृते अष्टाकपालन्यः अष्टाकपालमित्यष्टाकपालन्वपेर्वपेद्यः इवर्शपूर्णमासयाजी दर्शपूर्णमासयाजी सन् दर्शपूर्णमासयाजीति दर्शपूर्णमासायाजी सन्नमावास्याम् मा वास्याम् वा मा वास्यामित्यमाभास्याम् वा पौर्णमासीम् पौर्णमासीम् वा पौर्णमासीमिति पौर्णमासीम् प्रातिपादये यत् प्रतिपादये प्रतिपादयेदित्यति पादयेत् अथो वि वा एषः एषो हि अध्यपथेन अपथेन इति एतयः यो दर्शपूर्णमासयाजी दर्शपूर्णमासयाजी सन् दर्शपूर्णमासयाजीति दर्शपूर्णमासा याजी सन्नमाभाष्याम् मा भास्याम् वा मा भास्यामित्यमाभाष्याम् मा पौर्णमासीमिति पौर्णमासीम् वातिपादयति प्रतिपादयत्यग्निम् अतिपादयति इत्यतिपादयति अग्निमेव एव पथिकृतम् पथिकृतग्निस्वेन पथिकृतमिति पथिकृतम् स्वेन भागधे येन भागधेजेनोप भागधेजेनेति धावति वधावति सः स एवैनम् एनमवधात् अवधात् पन्थान् पन्थामपि अपि नयति मयत्यनड्वान् अनड्वान् दक्षिणा दक्षिणा वही वहीः एषः एष समृद्धि समृद्ध्या अनयेः समृद्ध्या इति समृद्ध्यै अग्निये व्रतपतये व्रतपतये प्रोडाशम् व्रतपतये इति व्रतापतये प्रोडाशमष्टाकपालम् अष्टाकपालङ्ः अष्टाकपालमित्यष्टाकपालम् वेद्यः आहिताग्निः आहिताग्निः सन् आहिताग्निरित्याहिताग्निः सन्नव्रत्यम् अव्रत्यमिव इव चलेद् चरेदग्निम् अग्निमेव एव व्रतपतिम् व्रतपतिज्ञस्वेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एवैनम् एनम् व्रतम् व्रतमा आलम्भयति लम्भयति व्रत्यः व्रत्यो भवति भवत्यग्नये अग्नये रक्षो रक्षोघ्ने रक्षोघ्ने प्ररोढाशम् रक्षोघ्ने इति रक्षहाघ्ने प्रौढाशमष्टाकपालम् अष्टागपालन्निः अष्टाकपालमित्यष्टागपालम् निरपवेद्वेद्यम् यदुम् रक्षागुंसि रक्षागुंसि सचयनम् सचयनम् अग्निम् अग्निमेव एव रक्षोहणम् रक्षोहणस्येन रक्षोहणमिति रक्षहाहनम् स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन धावति धावति सः स एव देवास्माद् अस्माद्रक्षागुंसि रक्षाकस्य वा अपहन्ति हन्ति निषितायाम् निषितायान्निः निषितायामिति निषितायाम् निर्वपेद् नृपेन्निषितायाम् निषितायागुंहि निषितायामिति निषितायाम् हि रक्षागुंसि रक्षागुंसि प्रेरते प्रेरते सम्प्रेरणानि प्रेरत इति प्रारतेः सम्प्रेरणान्येव सम्प्रेरणानि सम्प्रेरणानि एवनानि हन्ति अन्तिपरिश्रुते परिश्रुते याजयेत् परिश्रुत इति परिश्रुतेः याजयेत् रक्षसाम् रक्षसामनन्वचाराय अनन्वचाराय रक्षोघ्नी अनन्वचाराय इत्यनो रक्षोघ्नी याज्यानुवाक्ये रक्षोघ्नी इति रक्षाघ्नी नाज्यानुवाक्ये भवतः याद्यानुवाक्ये इति याद्या अनुवाक्ये भवतो रक्षसा रक्षसागसृत्यैः श्रुत्या अग्नये अग्नये रुद्रपदे रुद्रपदे प्रोडाशम् रुद्रपद इति रुद्रावतेः प्रोडाशमष्टाकपालम् अष्टाकपालन्निः अष्टाकपालमित्यष्टाकपालम् निर्वभेद पभेदभिजरन् अभिजरन् एषा एषा वै वा अस्य घोरा घोरातनोः तनो यत् यद् रुद्रस्तस्मै तस्मा एवैनम् एनमा आपृश्यते पृश्यति ताजत् ताजगार्तिम् कार्तिमा आर्ति यच्छत्यग्नये अग्नये सुरभिमते सुरभिमते प्रोडाशम् सुरभिमत इति सुरभिमते प्रोडाशमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्ववेद् यस्य यस्य गावः गावो वा पुरुषाः पुरुषा वा प्रमेयेरन् प्रमेये यो वा विभीजाद् विभीजादेषा एषा वै वा अस्य अस्य भेषज्याः भेषजा तनोः तनोर्य सुरभिमती सुरभिमतीदयाः सुरभिमतीति सुरभिमती तयैव एवास्मै अस्मिन् भेषजम् भेषजम् करोति करोति सुरभिमते सुरभिमते भवति सुरभिमत इति सुरभिमते भवति इति पूतीगन्धस्य अपहत्या पूती अग्ने अपहत्या इत्यपाहत्यै अग्नये क्षामपते क्षामपदे प्रोडाशम् <useum |notimestamps|> क्षामपते प्रोडाशमष्टागपालम् अष्टागपालनिः अष्टागपालमित्यष्टागपालम् निर्ववेत् पवेत् सङ्ग्रामे सङ्ग्रामे संयत्ते सङ्ग्रामयिरिसङ्ग्रामे संयत्ते भागधेयेन संयत्तैलिसंयत्ते भागधेयेनैव भागधेयेनेति भागाधेयेन एवैनम् केनकम् शमयित्वा शमयित्वा पराणे परानभि अभिनिः निर्दिशतियम् यमपरेषाम् अपरेषाम् विध्यन्ति विध्यन्ति जीवति जीवति सः सयम् यम् परेषाम् परेषाम् प्रसः समीयते जीयते जयति जयति तम् तकम् सङ्ग्रामम् सङ्ग्राममभि सङ्ग्राममिति सङ्ग्रामम् अभिवै वा एषः एष एतान् एतानुच्यति उच्यति एषाम् एषाम् पूर्वापराः पूर्वापरा पूर्वापरा इति पूर्वापराः अन्नन्तः प्रमीयन्ते प्रमीयन्ते पुरुषाहुदिः प्रमीयन्द इति प्रमीयन्ते पुरुषाहुतिर्हि पुरुषाहुतिरिति पुरुषा अस्य प्रियतमा प्रियतमाग्नये प्रियतमेदि प्रियातमा अग्नये क्षामवदे क्षामवदे पुरोडाशम् प्रोडाशमष्टाकपालम् अष्टाकपालनिः अष्टाकपालमित्यष्टाकपालम् त्रिपेद् नृपेद्भागधेयेन भागधेयेनैव भागधेयेनेति भागधेयेन एव शमयति शमयति न मैषा एषाम् पुरा पुरायुषः आयुषोऽपरः अपरः प्रमीयते मीयतेऽभिः अभिवै वा एषः एष एतस्य एतस्य गृहान् गृहानुच्यति उच्यति यस्य यस्य दहत्यग्नये अग्नये क्षामवदे क्षामपते प्रोडाशम् क्षामवते इति क्षामावते प्रोडाशमष्टागपालम् अष्टागपालम् निः अष्टागबालमित्यष्टागपालम् निर्वपेद् वपेद्भागधेयेन भागधेयेनैव भागधेयेनेति भागधेयेन एव शमयति शमयति न नास्य अस्यापरम् अपरम् ग्रहान् ग्रहान् दहति दहतीति दहति अर्णये कामाय कामाय प्रोडाशम् क्रोडाशुमष्टाकपालम् अष्टाकपालम् निः अष्टाकपालमित्यष्टागपालम् युपवेत् उपवेद्यम् यम् कामः कामो नोपनमेत् उपनमेदग्निम् उपनमेदित्युपनमेत् अग्निमेव एव कामम् कामग्निस्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः एवैनम् एनम् कामेन कामेन सा समर्थयति अमर्धयत्युप उपैनम् एनम् कामः कामो नमति नमत्यग्नये अग्नये यविष्ठाय जविष्ठाय प्रोडाशम् प्रोडाशमष्टाकपालम् अष्टाकपालनिः अष्टाकपालमित्यष्टाकपालम् निर्वपेत् उपेत् स्पर्धमानः स्पर्धमानः क्षेत्रे क्षेत्रे वा वा स जातेषु सुजातेषु वा अग्निमेव एव यविष्ठम् यविष्ठगस्वेन सेन भागधेयेन भागधेयेनोपभागधेयेनेति उपधावति धावति तेन तेनैव एवेन्द्रियम् वीर्यम् वीर्यम् भ्रातृव्यस्य भ्रातृव्यस्य युवते युवदेवि इपाप्मना पाप्मना भ्रातृवेण भ्रातृवेण जयते यतेन्द्रिये अग्निये यविष्ठाय यविष्ठाय क्रोडाशमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निरुपेद् उपेदभिचर्यमाणः अभिचर्यमाणोऽज्ञम् अभिचर्यमाण इत्यभिचर्यमाणः अग्निमेव एव यविष्ठम् यविष्ठग्स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति सः स एव एवास्मात् अस्माद्रक्षागुंसि रक्षापुंसि यवयति यवयति नमभिजरन् अभिजरन् अभिजरन्नित्यभिजरन् स्तृणते अग्नये अग्नयायुष्पदे आयुष्पदे प्रोडाशम् प्रोढाशमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपेत् उपेद्यः यः कामयेत कामयेत सर्वम् सर्वमायुः आयुर्याम् यामिकि इत्यग्निम् अग्निमेव एवायुष्मन्तम् आयुष्मन्दग्निस्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति सः स एव एवास्मिन् अस्मिन्नायुः आयुर्दधाति दधाति सर्वम् सर्वमायुः आयुरेदि एत्यग्नये अग्न्यये जातवेदसे जातवेदसे प्रौढाशम् जातवेदसे इति जातावेदसेः प्रोडाशमष्टाकपालम् अष्टाकपालम्निः अष्टाकपालमित्यष्टाकपालम् निर्वपेद् वपेद्भूतिकामः भूतिकामोऽग्निम् भूतिकाम इति भूतिकामः अग्निमेव एव जातवेदसम् जातवेदसङ्गस्येन जातवेदसमिति जातावेदसम् जाता जाता स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एवैनम् एनम् भोजिम् भोजिम् गमयति गमयति भोजि भवत्येव एवाग्नये अग्नये रुक्मते रुक्मते प्रोडाशम् प्रोडाशमष्टागपालम् अष्टागपालम् निः अष्टागपालमित्यष्टागपालम् निरुपेद् उपेदृक्कामः ऋक्कामोऽग्निम् ऋक्ताम इति रुपकामः अग्निमेव एव रुक्मन्तम् ऋक्मन्तग्रस्तेन स्वेन भागधेयेन भागधेयेनोप धावति दधावति सह स एव एवास्मिन् अस्मिन् ऋषम् दधाति दधाति रोचते रोचत एव एवाग्नये अग्नये तेजस्वदे तेजस्वदे प्रोडाशम् प्रोडाशमष्टागबालम् अष्टागबालन्यः अष्टागबालमित्यष्टागबालम् निर्ववेद्भेद् तेजस्कामः तेजस्कामोऽग्निम् तेजस्काम इति तेजः कामः गधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एव एवास्मिन् अस्मिन् तेजः तेजोदधाति दधाति तेजस्वी तेजस्वेव एव भवति प्रोडाशमष्टागपालम् अष्टाकपालम् निः अष्टाकपालमित्यष्टाकपालम् निर्वपेद् उपेत् सीक्षमाणः सीक्षमाणोऽम् अग्निमेव एव साहन्त्यम् साहन्त्यस्त्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपप्रधावति धावति तेनैव एव सहते सहधेयम् यगम् सीक्षते सीक्षत इति शीक्षते अग्नयेन्नवदे मन्नवदे प्रोडाशमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपेद उपेद्यः यः कामयेद कामयेदान्नवान् अन्नवान्स्याम् अन्नवानित्यन्नावान् श्यामिति इत्यग्निम् अग्निमेव एवान्नवन्दम् अन्नवन्दग्निसेन अन्नवन्दमित्यन्नावन्दम् सेनभागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः सदेव एवैनम् एनमन्नवन्तम् अन्नवन्तम् करोति अन्नवन्दविङ्गम् प्रवत्यन्नवान् अन्नवानेव अन्नवान् इत्यन्नवान् एव भोद्यङ्गये अङ्गयेनादाय अन्नादाय प्रोडाशम् उन्नादायत्यन्नादाय प्रोडाशमष्टागपालम् अष्टागपालम् निः अष्टागपालमित्यष्टागपालम् निर्ववेद् प्रवेद्यः यः कामयेत कामयेतान्नादः अन्नादस्याः अन्नादन्नादः श्यामिजी इत्यग्निम् अग्निमेव एवान्नादम् अन्नादग्निस्वेन अन्नादमित्यन्नादम् स्वेन भागधेयेन भागधेजेनोप भागधेजेनेत्रिभागधेयेन सः स एवम् एनमन्नादम् अन्नादम् करोति अन्नादमित्युनादम् करोत्यन्नादः अन्नाद एव अन्नाद इत्युनादः एव भवति अग्नयेन्नपतये अन्नपतये प्रोढाशम् अन्नपतयेत्यन्नापतयेष्टागबालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपेदयः यः कामयेत कामयेतान्नपतिः अन्नपतिस्यापतिवित्यन्नापतिः श्यामिजि इत्यग्निम् अग्निमेव एवान्नपतिम् अन्नपतिस्वेन अन्नपदित्यन्नापतिम् स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन धावति सः स एवम् एनमन्नपतिम् अन्नपतिम् करोति अन्नपतिव्यत्यन्नापतिम् करोत्यन्नपतिः ग्य उपमानाय प्ररोडाशम् प्रोडाशमष्टागपालम् अष्टाकपालन्निः अष्टाकपालनित्यष्टागपालम् उभेदग्नये अन्नये पावकाय पावकाय अग्नयेः अग्नये श्रुतये श्रुतये ज्योगामयाभि ज्योगामयाभिः यद् ज्योगामयाभिद्योगामयाभिः यदग्नये अग्नये अवमानाय अपमानाय गर्वपदे गर्वपदि प्राणम् प्राणमेव प्राणमति एवास्मिन् अस्मिन् तेन तेन दधाति दधादयत् यदग्नये अन्यये पावकाय पावकाय वाचम् वाचमेव एवास्मिन् अस्मिन् तेन तेन दधाति दादयत् यदग्नये अन्यये श्रुतये आयुरेव एवास्मिन् एवा अस्मिन् तेन तेन दधाति तथा कुत यदि यदीतासु इदासुर्भवति भवति जीवति जीवत्येव जीवद एवैताम् एतामेव एवनिः निर्वगेद् पेत् चक्षुष्कामः चक्षुष्कामो यत् चक्षुष्काम यदि चक्षुः कामः यदग्नये अग्नये गोमानाय वोमानाय निर्वपदि निर्वपदि प्राणम् निर्वपदिति प्राणमेव प्राणविति प्राणम् एवास्मिन् तेन दधाति दधाति यत् यदग्नये अग्नये पावकाय अवकाशवाचमेव एवास्मिन् तस्मिन् तेन तेन दधाति दधाति यत् अन्वये अन्वये श्रुतये चक्षु चक्षुरेव एवास्मिन् तस्मिन् तेन तेन दधाति उत यद्यन्धः अन्धो भवति भवति प्रैव एव पश्यति पश्यत्यग्नयेः अग्नये पुत्रपदे पुत्रपदे प्रोडासम् निर्वदेत् परेदिन्द्राय इन्द्राय कृत्रिणे कृत्रिणे प्रौढाशम् प्रौढाशमेकादशकपालम् एकादशकपालम् प्रजाकामः एकादशकपालमित्येकादशाकपालम् प्रजाकामोऽग्निः प्रजाकाम इति प्रजाकामः अग्निरेव एवास्मै अस्मै प्रजाम् प्रजाम् प्रजनयति प्रजामिति प्राजाम् प्रजनयति वृद्धाम् प्रजनयति वृद्धामिन्द्रः इन्द्रः प्रयच्छति यच्छति अग्नये अग्नये रसवदे रसवदे चीरे रसवदे अजक्षीरे जलम् अजक्षीरेत्यजाक्षीरे शरन्निः निर्ववेद प्रभेद्यः यः कामयेत कामयेदवान् रसवान् रसवान् तिरसावान् श्यामिजि इत्यग्निम् अग्निमेव एव रसवन्तम् रसवन्तग्रस्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागाधेयेन तधावति धावति एवैनम् तेन रसवन्तम् रसवन्तम् करोति रसवन्तमिति रसावन्तम् करोति रसवान् रसवानेव रसवानिति रसावान् एव भवति भवत्य क्षीरे रक्षीरे भवति क्षीरे इत्यदा वै एषा एषा यत् रजा रजा साक्षात् साक्षादेव साक्षादिति साक्षात् एव रसं रसमव अवरुन्धे वृन्धेऽग्नये अग्नये वसुमते वसुमते प्रोडाशम् वसुमत इति वसुमदेः प्रोडाशमष्टाकबालम् अष्टाकपालन्निः अष्टाकबालमित्यष्टागमालम् निरुपवेद् उपेद्यः यः कामयेत कामयेत वसुमान् वसुमान्स्याम् वसुमान् इति वसुमान् स्यामिति इत्यग्निम् एव वसुमन्तम् वसुमन्त्रस्वेन वसुमन्तमिति वसुमन्त्रम् स्वेन भागधेयेन भागधेयेनो वा भागधेयेन भागधेयेन धावति धावति सः स एवम् एनम् वसुमन्तम् वसुमन्तम् करोति वसुमन्तमिति वसुमन्त्रम् करोति वसुमान् वसुमानैव वसुमान् इति वसुमान् एव भवतिग्नये अग्नये वाचिसुते वाचिसृते प्रौढाशम् वाचसृत इति वाचासृते प्रौढाशमष्टागपालम् अष्टागपालनिः अष्टागपालमित्यष्टागपालम् निर्वपेद् वेत् सङ्ग्रामे वाजं वै वा एषः एष सिशीर्षति सिशीर्षति यः यः सङ्ग्रामम् सङ्ग्रामम् जिगीषति सङ्ग्राममिति सङ्ग्रामम् जिगीषत्यग्निः अग्निः खलु खलु वै देवानाम् देवानाम् वाजस्रत् वाजस्रदग्निम् वाजस्रदिति एव वाचस्रतम् वाजस्रदर्गस्वेन वाजस्रतमिति वाजाश्रुतम् स्वेन भागधेयेन भागधेयेनोप उपधावति धावति धावति धावति वा सङ्ग्राममिति सङ्ग्रामम् अथोरग्निः अथो इत्यथो अग्निरिव इव न प्रतिदृशे प्रतिदृशे भवति प्रतिदृशे प्रतिदृशे भवत्यये अग्निये अग्निवते अग्निवते प्रोडाशम् अग्निवतेत्यग्निवते प्रोडाशमष्टाकपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपेदपेद्यस्य यस्याग्नौ अग्नावर्निम् अग्निमभ्युद्धरेयोः अभ्युद्धरेयुर्निर्दिष्टभागः अभ्युद्धरेयुरित्यभि उद्धरेयोः निर्दिष्टभागो वै निर्दिष्टभाग इति निर्दिष्टाभागः एतयोः एतयोरन्यः अन्यो निर्दिष्टभागः अनिर्दिष्टभागोऽन्यः अन्यस्तौ तौ सम्भवन्तौ सम्भवन्तौ यजमानम् सम्भवन्तादिभवन्तौ यजमानमभिसम् सम्भवतः भवतः सः स आर्तिमार्तोः आर्थोर्यत् आर्तोरित्यार्थोः यदग्नये अग्नये अग्निपतेः अग्निपते निर्वपदि अण्यपत इत्यग्निपतेः निर्वपदि भागधेयेन निर्वपते इति निहीमपदि भागधेयेनैव भागधेयेनेति भागाधेयेन एवैनौ एनौ शमयति शमयिना नार्तिम् आर्तिमा आर्च्छति पृच्छति यजमानः यजमानोऽग्नये अग्नये ज्योतिष्पदे ज्योतिष्पदे प्रोडाशम् प्रोडाशमष्टागमानम् अष्टागमालन्निः अष्टागमानमित्यष्टागमानम् निर्वपेद्वेद्यस्य यस्यानिः अग्निरुद्धृतः उद्धृतो हृदे उद्धृत इत्युदयधृतः अहृदेग्निहोत्रे अग्निहोत्र उद्वायेत् अग्निहोत्र इत्यग्निहोत्रे उद्वायेदपरः उद्वायेदित्युदैवायेत् अपर आदीप्य आदीप्या नोद्धृत्यः अनोद्धृत्य इति अनोद्धृत्य इत्यनो उद्धृत्यः इत्याहोः आहुस्तत् तत्तथा तथा न कार्यम् कार्यम् यत् यद्भागधेयम् भागधेयमभिभागधेयमिति भागधेयम् अभिपूर्वः पूर्व उद्ध्रियते उद्ध्रियते किम् उद्ध्रियत इत्यमपरः अपरोऽभि अभुत् उद्ध्रियेत श्रियेतेति इति तानि तान्येव एवावक्षाणानि अवक्षाणानि सन्निधाय क्षाणानि इत्यवाक्षाणानि संनिधाय मन्थेर् संनिधायति संनिधाय मन्थेरितः इतः प्रथमम् प्रथमम् यज्ञे यज्ञे अभिः अग्निः स्वाद् जातवेदा इति जातावेदाः स गायत्र्या गायत्र्या द्रष्टुभा द्रष्टुभा जगत्या जगत्या देवेभ्यः देवेभ्यो हव्यम् हव्यम् वहतु वहतु प्रजानन् प्रजानन्भिः प्रजानन्यति प्राजानन् इति छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवम्वाद् स्वाद्योनेः योनेः प्रा प्रजनयति जनयत्येषः एष वाव वावसः सोऽः अग्निरिः इत्याहो आहुज्योतिः ज्योतिस्तु त्वयि अस्य अस्य परापतितम् परापतितमिति परापतितमिति परा यदग्नये अग्नये ज्योतिष्पदे ज्योतिष्पदे निर्वपदे निर्वपति यत् निर्वपदेति निपति एवास्य अस्य ज्योतिः ज्योतिष्परापतितम् परापतितम् तत् परापतितमिति परा तदेव एवाव अवरुन्धे वृन्ध इति रुन्धे वैश्वानरम् द्वादशकपालम् द्वादशकपालम् निः द्वादशकपालमिति द्वादशाकपालम् निर्भवेत् भवेद्वारुणम् वारुणम् चरम् चरम् दधिक्राविणे दधिक्राविणे चरम् दधिक्राविण्णै इति दधिक्राविणेः चरमभिषस्यमानः अभिषस्यमानो यत् अभिषस्यमान इत्यभिषस्यमानः यद्वैश्वादरः द्वादशकपालः द्वादशकपालो भवि द्वादशकपाल इति द्वादशकपालः भवति संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वा अग्निः एवैनम् केन ग्रः स्वदयति अपपापम् पापम् वर्णम् वर्णगम् हते ते वारुणेन वारुणेनैव एवैनम् एनम् वरुणपाशाद् वरुणपाशान्वञ्चति वरुणपाशादिति वरुणापाशाद् वञ्चति तिधिक्राविण्णाः अधिक्राविण्णा बुनादिधिक्राविणेतिधिक्राविण्णाः पुनादिहिणा दक्षिणा पवित्रम् पवित्रम् वै वै हिरण्यम् हिरण्यम् पुनादि पुनात्येव एवैनम् एनमाद्यम् आद्यमस्य अस्यान्नम् अन्नम् भवति भवद्येताम् एतामेव एवरैः निर्भवेद्वेद् प्रजागामः प्रजाकामः संवत्सरः प्रजाकाम इति प्रजानामः संवत्सरो वै एतस्य एतस्याशान्तः अशान्तो योनिम् योनिम् प्रजायै प्रजायै पशूनाम् इति प्राजायै पशूनान्निः निर्दहरि दहरि यः योऽलम् अलम् प्रजायै प्रजायै सन् प्रजाया इति प्राजायै सन् प्रजाम् प्रजामिति प्राजा न विन्दते द्वैश्वादरः द्वैश्वादरो द्वादशकपालो भवति द्वादशकपाल भवति संवत्सरः संवत्सरो वै संवत्सरविधि संवत्सरः वा अग्निः अग्निर्वैश्रादरः वयीश्रादरः संवत्सरम् संवत्सरमेव भा, भागधेयेन भागधेयेन शमयति भागधेयेन शमयति सः सोऽस्मै अस्मै शान्तः शान्तस्वाद् स्वाद्योनेः योनैः प्रजाम् प्रजाम्ब्र प्रजामिति प्राजाम् प्रशनयति जनयति वारुणेन वारुणेनैव एवैनम् एनम् वरणपाशात् वर्णपाशान्मुञ्चति वर्णपाशादिति वर्णापाशात् मुञ्चति दृधिक्रावण्णाः दधिक्रावण्णा बुनादि दधिक्रावण्येतिक्रावण्णाः पुरा हिरण्यम् हिरण्यम् दक्षिणा दक्षिणा पवित्रम् पवित्रम् वै वै हिरण्यम् हिरण्यम् बुनादि पुराद्येव एवैनम् विन्दते विन्दते प्रजाम् प्रजाम् वै वदामिति प्राजा वैश्वानिरम् द्वादशकपालम् द्वादशकपालम् निः द्वादशकपालमिति द्वादशाकपालम् निर्वपेद् पुत्रे जाते जाते, जाते यत् अष्टाकपालो भवति अष्टाकपाल भवति गायत्र्या गायत्र्यैव एवैनम् एनम् ब्रह्मवर्चसेन ब्रह्मवर्क्षसेन पुनादि ब्रह्मवर्चसेनेति ब्रह्मवर्चसेन पुनादियद् यन्नवकपालः नवकपालस्त्रिवृताः नवकपाल इति नवाकपालः त्रिवृतैव त्रिवृतयति त्रिवृताः एवास्मिन् अस्मिन् तेजः तेजो दधाति दधाति यत् यद्दशकपालः दशकपालो विराजाः दशकपाल इति दशाकपालः विराजैव विराजयति विराजाः एवास्मिन् अस्मिन्नन्नाद्यम् अन्नाद्यम् अन्नाद्यमित्यन्नाद्यम् वृथादि यत् यदेकादशकपालः एकादशकपालसृष्टुभाः एकादशकपाल इत्येकादशकपालः स्रष्टुभैव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियम् दधाति तथा चेत् यद्वादशकपालः द्वादशकपालो जगत्या द्वादशकपाल इति द्वादशकपालः जगत्यैव एवास्मिन् अस्मिन् पशोन् पशोन् दधाति तथा यस्मिन् यस्मिन् जाते जातयेता एतामिष्टिम् इष्टिम् निर्वपति निर्वपति भूतः निर्वपतीतिनि हेमपति भूत एव एव इन्द्रियावी पशुमान् पशुमान् भवति पशुमान् इति पशुमान् भवत्यव नै वा एषः एष सुवर्गाद् सुवर्गाल्लोकात् स्वर्गादिति स्वभागात् लोकाच्छिद्यते छिद्यते यः यो दर्शपूर्णमासयाजी दर्शपूर्णमासयाजी सन् दर्शपूर्णमासयाजीति वा ममावास्यामित्यमावास्याम् वा पूर्णमासीम् पूर्णमासीम् वा पौर्णमासीमिति पौर्णामासीम् मातिपादयति अतिपादयति सुवर्गाय अतिपादयतीत्यतिपादयति स्ववर्गाय हि स्वर्गाय इति सुभागाय हि लोकाय लोकाय दर्शपूर्णमासौ दर्शपूर्णमासा विज्येते दर्शपूर्णमासा विदिति दर्शापूर्णमासौ युज्येते वैश्वानरम् युज्येते इति युज्येते वैश्वानरम् द्वादशकपालम् द्वादशकपालम् निः द्वादशकपालमिति द्वादशाकपालम् निर्भवेद उपेदमावास्याम् मावास्याम् वा अमावास्यामित्यमावास्याम् वा पौर्णवासीम् पौर्णवासीम् वा पौर्णवासीमिति पौर्णावासीम्पाद्य अतिपाद्यसंवत्सरः अतिपाद्य इत्यतिपाद्य संवत्सरो वै संवत्सर इति संवत्सरः वा अग्निः अन्यर्वैश्वानरः वैश्वानरः संवत्सरम् एव प्रीणादि प्रीणात्यथोः अथो संवत्सरम् अथो यद्यथो संवत्सरमेव संवत्सरमिति संवत्सरम् एवास्मै अस्माकुप उपदधाति दधाति सुवर्गस्य स्वर्गस्य लोकस्य सुवर्गस्य सुभागस्य लोकस्य समष्टि समष्ट्याथोः समष्ट्या इति सामृष्टिः अथो देवताः अथो इत्यथोः देवता एव एवान्वारभ्य अन्वारभ्य सुवर्गम् रभेत्यनो आरभ्य सुवर्गम् लोकम् सुवर्गमिति सुभागम् लोकमेति एति वीरः वीरः वै वीरहेति वीराः वा एषः एष उद्वासयतेन उद्वासयत इत्युत वासयते एतस्य ब्राह्मणाः ब्राह्मणायवः राजवः पुरा न्नम् अन्नमक्षन् अक्षन्नाज्ञेयम् आग्नेयमष्टागपालम् अष्टागपालन्निः अष्टागपालमित्यष्टागपालम् निर्वपेदद्वैश्वानरम् ऐश्वानरम् द्वादशकपालम् द्वादशकपालमग्निम् द्वादशकपालमिद्वादशाकपालम् अग्निपद्वासयिष्यन्वासयिष्यनयत् वासयिष्यन्त्युत् वासयिष्यन् यदष्टागपालः अष्टाकपालो भवति अष्टाकपाल इत्यष्टागपालः भवत्यष्टाक्षर अष्टाक्षरगायत्री अष्टाक्षरेत्यष्टाक्षरा गायत्री गायत्रः गायत्रोऽः अग्निर्यावादे यावादेव एवाग्निः अन्दिस्तस्मै तस्मादिथ्यम् आदिथ्यम् करोति करोत्यथो अथो जनयते यते वसम् अवसम् करोति करोति तादृग् दादर्क, तादृगेव एव तत् तद्वादशकपालः द्वादशकपालो वैश्वादरः द्वादशकपाल इति द्वादशकपालः वैश्वादरो गौरि भवति द्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरः खलु संवत्सर इति स्वामेव एवैनम् एनम् योनिम् योनिम् गमयति आद्यमस्य अस्यान्नम् अन्नम् भवति भवति वैश्वादनम् वैश्वादनम् द्वादशकपालम् द्वादशकपालनिः द्वादशकपालमिति द्वादशाकपालम् निर्ववेत् उपयन्मारुतम् मारुतकम् सप्तकपालम् सप्तकपालम् ग्रामकामः सप्तकपालमिति सब्दाकपालम् ग्रामकामाहवनीये ग्रामकामयदि ग्रामाकामः आहवनीये वैश्वादरम् आह्वनीय इत्या आहवनीयये वैश्वानरमधि अधिश्रयति श्रयति गारः पत्ये गारः पत्ये मारुतम् गारः वत्यैदि गार्हः वत्ये मारुतम् पापवस्य पापवस्य विधृत्यै पापवस्यधस्य इति पापवस्यधस्य विहृत्यै द्वादशकपालः विधृत्य इति द्वादशकपालो वैश्वानरः द्वादशकपाल इति द्वादशकपालः वैश्वानरो भवति भवति द्वादश द्वादशमासा आसारः संवत्सरः संवत्सरः संवत्सरेण संवत्सर इति संवत्सरः संवत्सरेणैव संवत्सरेणेति संवत्सरेण एवास्मै अस्मै स जातान् सुजाताविश्चावयति सजातामिति स जातान् चावयति मारुतः मारुतो भवति भवति मरुतः मरुतो वै वै विशः विषो देवविषेन देवविषेनैव देवविषेनेति देवविषेन एवास्मै अस्मै मनुष्यविषम् मनुष्यविषमव मनुष्यविषमिति मनुष्याविषम् अवगृन्धे गृन्धे सप्तकपालः सप्तकपालो भवति सप्तकपाल इति सप्ताकपालः सप्तगणाः सप्तगणा वै सप्तगणा इति सप्तागणाः वै मरुतः मरुतो गणशः गणश एव गणश इति अवरुन्धे वृन्धेऽनोच्यमाने अनोच्यमान आ अनोच्यमान इत्यनोच्यमाने आसाधयति साधयति विषम् विषमेव एवास्मै अस्मानुवर्त्मानम् अनुवर्तमानम् करोति अनुवर्त्मानमित्यनो वर्तमानम् करोतीति करोति आदित्यञनुम् करोन्मिहि निर्वपेद् वेत् सङ्ग्रामम् सङ्ग्रामम् अप्रयास्यन् सङ्ग्राममिति सङ्ग्रामम् अप्रयास्यन् इयम् अप्रयास्यन्नित्यु वा प्रयास्यन् इयम् वै आदितिः अदितिरस्याम् अस्यामेव एव पूर्वेः पूर्वे प्रति प्रतिष्ठन्ति तिष्ठन्ति वैश्वानरम् वैश्वानरम् द्वादशपालम् द्वादशकपालनिः द्वादशपालनि द्वादशकपालम् निर्वपेद्वेदायतनम् आयतनम् गत्वा आयतनमित्याहायतनम् गत्वा संवत्सरः संवत्सरो वै संवत्सरः इति संवत्सरः वा अग्निः अग्निर्वै श्वादरः वैश्वादरः संवत्सरः संवत्सरः खलु संवत्सर इति वा आयतनात् आयतनाद्देवाः आयतनादित्या आयतनाद् एवा असुरान् असुरान जयन् असुरान अजयन यद् यद्वयीश्वदरम् ऐश्वराधरम् द्वादशकपालम् द्वादशकपालम् निर्वपति द्वादशकपालद्वादशाकपालम् निर्वपतिदेवानाम् निर्वपतीति निहेमपति देवानामेव एवायतने आयतने यतते आयतन इत्यायतने यतते जयति जयति तम् तगम् सङ्ग्रामम् सङ्ग्राममेतस्मिन् सङ्ग्राममिति सङ्ग्रामम् एतस्मिन्वै वा एतौ एतौ मृजाते मृजाते यः मृजाते इति मृजाते नो विद्विषाणयोः इन्दृषाणयोर्ति वे इदृषाणयोः अन्नमर्ति अत्यवैश्वादरम् वैश्वादरम् द्वादशकपालम् द्वादशकपालम् निः द्वादशकपालमिति द्वादशाकपालम् निर्वपेद्वेद् विद्विषाणयोः विद्विषाणयोरन्नम् विद्विषाणयोरिति विद्विषाणयोः अन्नम् जग्ध्वा विद्ध्वा संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वाग्निः एवात्ति अर्थिना मास्मिन् अस्मिन् प्रजातेः प्रजाते संवत्सराय प्रजाधेति प्रजाते संवत्सराय वै संवत्सरायति संवत्सराय वा एतौ एतौ सम् सममादे अमाधेयौ अमाधे इत्यमादे यौ सममादेः सममाधेदयोः सममाधेति सम् अमादे तयोर्यः यः पूर्वः पूर्वोऽभिदृष्यति अभिदृष्यति तम् अभिदृष्यतेत्यभिदृश्यति गृह्णादि वैश्वादनम् वैश्वादनम् द्वादशकपालम् द्वादशकपालग्निः द्वादशकपालमिति द्वादशाकपालम्बेद्वेत् सममानयोः सममानयोः पूर्वः सममानयोरिचिसममानयोः पूर्वोऽभिदृह्य अभिदृह्य संवत्सरः अभिदृह्येत्यभिदृह्य संवत्सरो वै संवत्सरेति संवत्सरः वा अग्निः अग्निर्वैश्वादरः वैश्वादरः संवत्सरम् संवत्सरमेव संवत्सरमिति संवत्सरम् एवाद्वा आप्ता निर्वणम् निर्वरुणम् परस्ताद् निर्वर्णमिति निः वरुणम् परस्तादभि अभिदृश्यति गृह्यति नैनम् एनम् वरुणः वरुणा वै वा एषः एष प्रति प्रतिगृह्णादि गृह्णादियः योगम् अभिम्प्रतिगृह्णाति प्रतिगृह्णाति वैश्वादनम् प्रतिगृह्णातीति प्रतिगृह्णादि प्रईश्वादनम् द्वादशकपालम् द्वादशकपालन्निः द्वादशकपालमिद्वादशाकपालम् निर्वपेदविम् अविम्प्रतिगृष्य प्रतिगृह्य संवत्सरः प्रतिगृह्यति प्रतिगृष्य संवत्सरो वै संवत्सर इति संवत्सरः अग्निर्वैश्वादरः वैश्वाधरः संवत्सरस्वलिताम् संवत्सरस्वलितामेव संवत्सरस्वलितामिति संवत्सरः एव प्रति प्रतिगृह्णादि गृह्णातिना व्यम् आव्यम् प्रति प्रतिगृह्णाति गृह्णात्यात्मनः आत्मनोऽपि वा एषः एष मात्राम् मात्रामात्मोदि आप्नोति यः य उभयादत् उभयादत्प्रतिगृह्णाति प्रतिगृह्णात्यश्वम् प्रतिगृह्णातीति प्रतिगृह्णाति अश्वम् वा पुरुषम् वा वावै वैश्वादरम् द्वादशकपालम् द्वादशकपालम्निः द्वादशकपालमिति द्वादशाकपालम् निर्पवेद्भयाद उभयादत्प्रतिगृह्य प्रतिगृह्यसंवत्सरः प्रतिगृह्यति प्रतिगृह्य संवत्सरोतिः अग्निर्वैरीष्वानरः वैश्वानरः संवत्सरस्वलितम् संवत्सरस्वलितमेव संवत्सरस्वलितमिति संवत्सरास्वलितम् एव प्रति प्रतिगृह्णादि गृह्णादिना आत्मनः आत्मनो मात्रामाप्नोति आप्नोति वैश्वादनम् वैश्वादनम् द्वादशकपालम् द्वादशकपालन्निः द्वादशकपालविजिद्वादशपालम् निर्वपेद्वेत्सनिम् सनिवेश्यन् एष्यन्सम्सरः संवत्सरो वै संवत्सर इति संवत्सरः वा अग्निः अन्निर्वै ईश्वरानरः ईश्वर यदा खलु खलु वै वै संवत्सरम् जनतायाम् अथ सपालम् द्वादशपालम् निर्वपदे द्वादशकपालमिति द्वादश निर्वपति संवत्सरसा पदेहे पदे संवत्सरसातामेव संवत्सरसातामिति संवत्सरा साताः एव सनिम् सनिमभि अभिप्रच्यपदे सर्वदानकामाः दानकामा अस्मै दानकामा इति तस्मै प्रजाः प्रजा भवन्ति प्रजा इति प्राजाः भवन्ति यः यो वै वै संवत्सरम् प्रयुज्य संवत्सरमिति संवत्सरम् प्रयुज्य न प्रयुज्य इति प्रायुज्य न विमुञ्चति विमुञ्चत्यप्रतिष्ठानः एतमेव एव वैः स्वादनम् वैस्वादनम् पुनः पुनरागत्य आगत्यनिः आगत्येत्यागत्य आगत्ये निर्ववेद् ववेद्यम् इयमेव एव प्रयुङ्क्ते प्रयुङ्क्ते प्रयुङ्क्ते इति प्रायुङ्क्ते तम्भागधेयेन भागधेयेनपि भागधेयेनेति भागधेयेन भाग मुञ्चदि प्रतिष्ठत्यै प्रतिष्ठत्यै प्रतिष्ठत्यै यया रज्ज्वाः रज्ज्वोत्तमा उत्तमाङ्गा उत्तमाविद्युप्रतमा तामाजेत् आजेत्ताम् आजेदित्याह अजेत् ताम् निर्वृतिमेव निर्वृतिमिति निहे एवास्मै अस्मै प्रहिणोति हिणोतीति हिणोति ऐन्द्रम् चरुन् चरंग, चरन्निः निर्भवेद् पशुरामः पशुराम ऐन्द्राः पशुराम इति पशुरामः ऐन्द्रायि वै पशवः पशव इन्द्रम्ब एव एव उपधावति धावति सः एव अस्मै पशून् पशून् प्रयच्छति यच्छति पशुमान् पशुमानेव पशुमान् इति पशोमान् एव भवति एवास्मै अस्मै योनेः योनेः पुशून् पुशून् प्रजनयति जनयति इन्द्राय इन्द्राय इन्द्रियापदे इन्द्रियापदे प्रोडाशम् क्रोडाशनेकादशकपालम् एकादशकपालनिः एकादशकपालमित्येकादशाकपालम् निर्वपेद्पेद् पशुकामः पशुकाम इन्द्रियम् पशुकाम इति पशोकामः इन्द्रियम् वै वै पशवः पशव इन्द्रम् इन्द्रमेव एवेन्द्रियावन्तम् इन्द्रियावन्तग्रस्वेन इन्द्रियावन्तमितीन्द्रियावन्तम् स्वेन भागधेयेन भागधेजेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः ेवस्मैः अस्मान्द्रियम् इन्द्रियम् पशून् पशून् प्रयच्छति यच्छति पशुमान् पशुमानेव पशुमान् इति एव भवति भवतीन्द्राय इन्द्राय घर्मवदे घर्मवदे प्रौढाशम् घर्मवदे घर्मावदे प्रौढाशमेकादशकपालम् एकादशकपालन्निः एकादशकपालमित्येकादशकपालम् निर्वमेत् वपेद् ब्रह्मवर्चसकामः ब्रह्मवर्तसकामा ब्रह्मवर्चसम् ब्रह्मवर्तसकाम इति ब्रह्मवर्चसकामः ्रह्मवर्क्षसं वै ब्रह्मवर्क्षसमिति ब्रह्मवर्चसं सः स एव एवास्मिन् अस्मिन् ब्रह्मवर्चसम् ब्रह्मवर्चसं ब्रह्मवर्चसमिति ब्रह्मा वर्तसम् ब्रह्मवर्चसी ब्रह्मवर्चस्येव ब्रह्मवर्चसीति <pleasure> ब्रह्मवर्चसी एव भवति इन्द्राज इन्द्राज अर्कवदे अर्कवदे प्रौढाशम् अर्कवदे इत्यर्कवदे प्रौढाशमेकादशकपालम् एकादशकपालम् निः एकादशकपालमित्येकादशकपालम् निर्वपेद् वपेदन्नकामः अन्नकामोऽर्कः अन्नकाम इत्यनाकामः अर्को वै वै देवानाहम् देवानामन्नम् अन्नमिन्द्रम् इन्द्रमेव एवार्कवन्तम् अर्कवन्तर्ग्रस्वेन अर्कवन्तमित्यर्कावन्तम् स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एवास्मैः अस्मान्नम् अन्नम् प्रयच्छति यच्छत्यन्नादः अन्नाद एव अन्नाद इत्यनादः एव भवति भवतीन्द्राय इन्द्राय घर्मपदे घर्मपदे प्रौढाशम् घर्मवद इति घर्मावदे प्रौढाशमेकादशकपालम् एकादशकपालनिः एकादशकपालमित्येकादशाकपालम् निर्वपेद् अपेदिन्द्राय इन्द्रायेन्द्रियावते इन्द्रियावत इन्द्राय इन्द्रियावत इति इन्द्रियावते इन्द्रायार्कवदे अर्कवदे भूतिकामः अर्कवद इत्यर्कावतेः भूतिकामो यत् भूतिकाम इति भूतिकामः यदिन्द्राय इन्द्राय घर्मवदे घर्मवदे निर्वपदि घर्मवद इति घर्मावतेः निर्वपतिशिरः निर्वपतीति निहीवपति शिर एव एवास्य तेन तेन करोति करोतिन्द्राय इन्द्रायेन्द्रियावते इन्द्रियावत आत्मानम् इन्द्रियावतेः आत्मानमेव एवास्य तेन केन करोति करोति यत् यदिन्द्राय अर्कवदे भूतः अर्कवत इत्यर्कावते भूत एव एवान्नाद्ये अन्नाद्ये प्रति अन्नाद्य इत्यनाद्ये प्रतिष्ठति तिष्ठति भवति भवत्येव एवेन्द्राय इन्द्रायागम् होमचे अगुम् होमचे प्रौढाशम् प्रौढाशमेकादशकपालम् एकादशकपालनिः एकादशकपालविद्येकादशाकपालम् निर्ववेद्वेद्यः यः पाप्मनः पाप्मना गृहीतः गृहीतः स्यात् स्यात्पाप्मा पाप्मा वै वा अगुंहः अगुंह इन्द्रम् इन्द्रमेव एवागुंहोमुचम् अगुंहोमचब्दस्वेन अगुंहोमचमित्यगुंहमुचम् स्वेन भागधेयेन भागधेयेनोप भागधेजेनेति उपधावति धावति सः स एवैनम् एनम्बात्मनः आह्मनोऽगुम्भसः अगुम्भसो मुञ्चति मुञ्चदीन्द्राय इन्द्राय वैमृधाय वैमृथाय प्रोडाशम् प्रोडाशमेकादशकपालम् एकादशकपालन्निः एकादशकपालविद्येकादशाकपालम् निर्वपेद वपेद्यम् इयमृथः वृथोऽभिः अभिप्रवेपेरन् प्रवेपेरन् राष्ट्राणि अभि प्रवेपेरन्यति प्रावेपेरन् राष्ट्राणि वा अभिषमियुः समियुरिन्द्रम् समियुरिति सन् इयुः इन्द्रमेव एव वैमृधम् भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति सः स एव वा, अस्मान् मृधः ऋथोप अपहन्ति हन्तीन्द्राय इन्द्राय त्रात्रे त्रात्रे त्रोडाशम् त्रोडाशमेकादशकपालम् एकादशकपालमित्येकादशकपालम् निर्वपेद् अपेद्बद्धः दद्धो वा पर्यत्तः पर्यत्तो वा पर्यत्त इति वेन्द्रम् इन्द्रमेव एवत्रातारम् प्रातरब्धस्येन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन स एवम् एनम् प्रायतेः प्रायत इन्द्राय अर्काश्वमेधवते प्रोढाशम् अर्काश्वमेधवते इत्यर्काश्वमेधावे प्रौढाशमेकादशकपालम् एकादशकपालमित्येकादशकपालम् निर्वपेद् अपेद्यम् इयम् महायज्ञः महायज्ञो न महायज्ञ इति एते वै एते वै महायज्ञस्य महायज्ञस्यान्ते महायज्ञस्येति महायज्ञस्य अनुन्त्ये तनो अन्त्ये इत्यन्त्ये तनो यत् तनो यदि तनो यदर्काश्रमेधौ अर्काश्रमेधाविन्द्रम् इन्द्रमेव एवार्काश्वमेधवन्तम् अर्काश्वमेधवन्तग्रस्वेन अर्काश्रमेधवन्तर्काश्वमेधावन्तम् स्वेन भागधेयेन भागधेयेनोपभागधेजेनेति भागधेयेन उपधावति धावति सः स एव एवास्मै अस्मान्ततः अन्ततो महायज्ञम् महायज्ञम् चावयति महायज्ञमिति महायज्ञम् चावयच्छुव उपैनम् ृजरे अन्वृजरे प्ररोडाशम् अन्वृजपयजनोरुचते रोडाशमेकादशकपालम् एकादशकपालन्निः एकादशकपालमित्येकादशकपालम् निर्वपेद्पेद्ग्रामकामः ग्रामकाम इन्द्रम् ग्रामकामयति ग्रामाकामः इन्द्रमेव देवान्वृजम् अन्वृजविग्रस्वेन अण्वृजमित्यनोरुजम् स्वेन भागधेयेन भागभेदेनोप भागभेदेनेति भागभेदेन दे उपधावति धावति सः स एव एवास्मै कस्मै स जातान् स जाताननुकान् स जातानिति स जातान् अनुकान् अनुकान करोति अनुकानित्यलोकान् करोति ग्रामी ग्राम्येव एव भवति भवतीन्द्राण्यै इन्द्राण्यै चरुन् चरुणिः निर्वपेत् प्रवेद्यस्य यस्य सेना सेनासपुंसिता असपुंसितेव असपुंसितेत्यसंसिताः इव स्यात् स्यादिन्द्राणीम् इन्द्राणी वै वै सेनायै सेनायै देवताः देवतेन्द्राणीम् इन्द्राणीमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सा सैव एवास्य तस्य सेनाम् सेनापुंसम् सगृह्यति श्रीबल्बजान् बल्बजानपि अपि ध्वे इध्मे सम् सं, सन्नह्येत् नह्येद्वोः लोर्यत्र यत्राधिष्कन्ना यत्रा अधिष्कन्नान्यमेहत् अधिष्कन्नेत्यधिस्कन्नाः न्यमेह ततः हा, ्यमेहदिति मि अमेहत् ततो बल्बजाः बल्बजावत् उदतिष्ठन् अतिष्ठन् गवाम् गवामेव एवैनम् एन न्यायम् आयम् अपिनीयगाः अपिनीयेत्यपि अपिनी नीय गावेदयति वेदयतीन्द्राय इन्द्राय मन्यमते मन्यमते मनस्वते मन्यवत इति मन्यो मते मनस्वते एकादशकपालमित्येकादशकपालम् निर्वपेत् वपेत् सङ्ग्रामे सङ्ग्रामे संयत्ते सङ्ग्राम इति सङ्ग्रामे इति संयत्ते इन्द्रियेण वै वै मन्युना मन्युना मनसा मनसा सङ्ग्रामम् सङ्ग्रामम् जयति सङ्ग्राममिति सङ्ग्रामम् इन्द्रमेव एव मन्यमन्तम् मन्यमन्तम् मनस्वन्तम् मन्यमन्तमिति मन्योमन्तम् मनःस्वन्तस्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति सः स एव एवास्मिन् अस्मिन्निन्द्रियम् इन्द्रियम् मन्यम् मन्यम् मनः मनोदधाति दधाति जयति ययतितम् तनुसङ्ग्रामम् सङ्ग्राममेताम् सङ्ग्राममिति सङ्ग्रामम् एतामेव एबनिः निर्वपेद् वपेद्यः यो हतमनाः हतमनाः स्वयम् पापः हतमना इति हतामनाः स्वयम् पाप इव स्वयम् पाप इति स्वयम् पापः यव स्यात् स्यादेतानि एतानि हि हि वै वा एतस्मात् एतस्मादपक्रान्तानि अपक्रान्तान्यथा अपक्रान्तानीत्यपाक्रान्तानि अथैषः एष हतमनाः हतमनाः स्वयम् पापः हतमना इति हतामनाः स्वयम् पापयन्द्रम् स्वयम् पापयति स्वयम् पापः इन्द्रमेव एव मन्युमन्तम् मन्युमन्तम् मनस्सन्तम् मन्यमन्तमिति स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एव एवास्मिन् अस्मिन्निन्द्रियम् इन्द्रियम् मन्युम् मन्युम् मनः मनो दधाति दधाति न हतमनाः हतमनाः स्वयम् पापः हतमना इति हतामनाः स्वयम् पापो भवति स्वयम् पाप इति पापः भवतीन्द्राय इन्द्राय दात्रे दात्रेऽप रोडाशम् रोडाशमेकादशकपालम् एकादशकपालनिः एकादशकपालमित्येकादशाकपालम् निरुपेद् उपेद्यः यः कामयेत दानकामा मे दानकामा इति दानाकामाः मे प्रजाः प्रजा स्युः प्रजा इति प्राजाः इन्द्रमेव एव दातारम् दातार्गस्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एव दानकामाः प्रजाः दानकामा इति दानकामाः प्रजाः करोति प्रजा इति प्राजाः करोति दानकामाः दानकामास्मै दानकामा इति दानाकामाः अस्मै प्रजाः प्रजा भवन्ति प्रजा इति प्राजाः भवन्तीन्द्राय इन्द्राय प्रदात्रे प्रदात्रे प्रोडाशम् प्रदात्र इति प्रादात्रे प्रोडाशमेकादशकपालम् एकादशकपालम् निः एकादशकपालमित्येकादशाकपालम् यस्मै प्रत्तम् प्रत्तमिव इवसत् सन्न न प्रतीयेत प्रदीयेतेन्द्रम् प्रदीयेतेति इन्द्रमेव एव प्रदातारुम् प्रदातारग्रस्वेन प्रदातारमिति प्रादातारुम् स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति तस्मै प्रदापयति दापयतीन्द्राय इन्द्राय सुत्राम्णे सुत्राम्णेऽपरोडाशम् सूत्राम्न इति सूत्राम्णे प्रोडाशमेकादशकपालम् एकादशकपालम् निः एकादशकपालमित्येकादशाकपालम् निर्ववेत् पवेदपरुद्धः अपरुद्धो वा अपरुद्ध इत्यपरुद्धः अपरुध्यमानः अपरुध्यमानो वा अपरुध्यमान इत्यपरुध्यमानः वेन्द्रम् इन्द्रमेव एव सुत्रामाणम् सूत्रामाणग्रस्वेन सुत्रामाणमिति सूत्रामाणम् स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एव एवैनम् एनम् त्रायतेः त्रायतेनपरुध्यः अनपरुध्यो भवति अनपरुध्य इत्यनपारुध्यः भवतीन्द्रः इन्द्रो वै वै सदृङ् देवताभिः सदृङ् इति सादृङ् देवताभिरासीत् आसीत् सः स न व्यावृतम् व्यावृतमगच्छत् व्यावृतमिति वि आवृतम् अगच्छत् सः स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापृतिम् उपाधावत् तथा वर्तस्मै तस्मादेतम् एतमैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालम् निः एकादशकपालमित्येकादशाकपालम् एकादशक निरवपत् अवपत्तेन तेनैव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियमदथात् अदथाच्चरी शक्वरी याज्यानवाक्ये श्वरी इति शकवरी याज्यानवाक्ये अकरोत् राज्यानुवाक्ये इति आज्या अनुवाक्ये अकरोद्वज्रः वज्रो वै वै शक्वरी शक्वरी सः स एनम् एनम् वज्रः वज्रो भूत्यै भूत्या ऐन्ध ऐन्धसः सोऽभवत् अभवत्सः सोऽभेत् प्रमा मा धक्ष्यति धक्ष्यतीति धक्ष्यती इति सः पुनः प्रजापतिमिति प्रजापतिम् पुनरुपा उपाधावत् अधावत्सः स प्रजापतिः प्रजापतिः शक्वर्याः प्रजापतिरिति प्रजापतिः अधि अधिरेवती रेवतीनिः निरमिमीत अमिमीतशान्त्यै शान्त्या अप्रदाहाय अप्रदाहाययः अप्रदाहायेत्यप्रादाहाय लोलम् अलग्श्रियै श्रियैः ङ् समानैः समानैः स्यात् स्यात् तस्मै तस्मा एतम् एतमैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालम् निः एकादशकपालमित्येकादशकपालम् निर्वपेत् इन्द्रमेव एव स्वेन भागधेयेनोप भागधेयेनेति भागाधेयेन उपधावति धावति एव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियम् दधाति दधाति रेवती रेवती पुरोणुवाक्या पुरोणुवाक्या भवति पुरः अनवाक्या भवति शान्ती शान्त्या अप्रदाहाय अप्रदाहाय शक्वरी अप्रदाहायेत्यप्रादाहाय शक्वरी आज्या याज्या वज्रः वज्रो वै वै शक्वरी शक्वरी सः स एनम् एनम् वज्रः वज्रो भूत्यै भूत्या इन्धे इन्धे भवति भवत्येव एवेत्येव आज्ञा वैष्णवमेकादशकपालम् आज्ञावैष्णवमित्या आज्ञा वैष्णवम् एकादशकपालन्निः एकादशकपालमित्येकादशकपालम् निर्वपेत् वपेदभिचरन् अभिचरन् सरस्वती अभिचरन्त्यभिचरन् सरस्वत्याज्यभागा आद्यभागा स्यात् आद्यभागे त्याज्यभागाः स्याद्बारहस्पर्त्यः वारहस्पर्त्यश्चरोः चरुर्यत् यदाज्ञा वैष्णवः आज्ञावैष्णव एकादशकपालः आज्ञावैष्णव इत्याग्ना वैष्णवः एकादशकपालो इत्या, भवति एकादशकपाल इत्येकादशकपालः भवत्यग्निः अग्निः सर्वाः सर्वा देवताः सर्वा देवता विष्णुः देवता विष्णुर्यज्ञः यज्ञो देवताभिः देवताभिश्च चैव देवैनम् यज्ञेन यज्ञेन च चा, चाभि अभिचरति चलति सरस्वती सरस्वत्याज्यभागा आज्यभागा भवति आद्यभागेत्याद्यभागाः भवति वाग्वाग्वै वै सरस्वती सरस्वती वाचा वाचैव एवैनम् एनमभि अभिचरति चरति वारहस्पत्यः वारहस्पत्यः शरुः चरुर्भवति भवति ब्रह्म ब्रह्म वै वयि देवानाम् ब्रह्मणैव एवैनम् एनमभि अभिचरति चरति प्रति प्रति वै वै परस्तात् परस्तादभिचरन्तम् अभिचरन्तमभि अभिचरन्तमित्यभिचरन्तम् अभिचरन्ति चलन्ति द्वे द्वे द्वे द्वे पुरोनुवाक्ये द्वे द्वे इति द्वे द्वे पुरोनुवाक्ये कुर्यात् पुरोनुवाक्ये इति पुरः अनुवाक्ये कुर्यादति अतिप्रयुक्त्यै प्रयुक्त्या एतया प्रयुक्ता इति प्रायुक्ति एतयैव एव यजेत यजेताभिचर्यमाणः अभिचर्यमाणो देवताभिः अभिचर्यमाण इत्यभिचर्यमाणः देवताभिरेव एव देवताः देवताः प्रतिचरति प्रतिचरति यज्ञेन प्रतिचरति इति प्रतिचरति यज्ञेन यज्ञम् यज्ञम् वाचा वाचा वाचम् वाचम् ब्रह्मणा ब्रह्मणा ब्रह्म ब्रह्मसः स देवताः देवताश्च चैव एव यज्ञम् यज्ञम् च समध्यतः मध्यतो व्यवसर्पति व्यवसर्पति तस्य व्यवसर्पतीति अवसर्पति तस्य न कुतः कुतश्च नोपाव्याधः उपाव्याधो भवति उपाव्याध इत्युप आव्याधः भवति नैनम् एनमभिचरन् अभिचरन् स्मृते अभिचरन्नित्यभिचरन् समवाज्ञा वैष्णवम् आज्ञावैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्याज्ञावैष्णवम् एकादशकपालग्निः एकादशकपालमित्येकादशकपालम् निर्वपेत् अपेद्यम् यज्ञः यज्ञो नोपनमेत् उपनमेदग्निः उपनमेदित्युपनमेत् अग्निः सर्वाः सर्वा देवताः देवता विष्णुः विष्णुर्यज्ञः यज्ञो अग्निम् अग्निम् च सैव एव विष्णुम् विष्णुम् च स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति तौ तावेव एवास्मै अस्मै यज्ञम् यज्ञम् प्रयच्छतः यच्छत उप उपैनम् येन यज्ञः नमत्याज्ञावैष्णवम् आज्ञावैष्णवम् धृते आज्ञावैष्णव इत्याज्ञा वैष्णवम् घृते चरुन् चरण्ः निर्वपेद् पपेत् चक्षुष्कामः चक्षुष्काम यदि चक्षुः कामः अग्नेर्वै चक्षुषा मनुष्याः मनुष्यापि विपश्यन्ति पश्यन्ति यज्ञस्य यज्ञस्य देवाः देवा अग्निम् अग्निम् चैव एव विष्णुम् विष्णुम् च स्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागाधेयेन उपधावति धावति तौ नावेव एवास्मिन् अस्मिञ्चक्षुः चक्षुर्धत्तः धत्तश्चक्षुष्मान् चक्षुष्मानेव एव भवति भवति धेन्वै धेन्वयि वै वा एतत् एतद्रेतः प्रेतो यत् यदाज्यम् आज्यमनडुहः अनडुहस्तण्डुलाः तण्डुलामिथुनात् मिथुनादेव एवास्मै अस्मै चक्षुः चक्षुः प्रजनयति जनयति घृते घृते भवति भवति तेजो वै वै घृतम् घृतम् तेजः तेजश्चक्षुः चक्षुस्तेजसा तेजसैव एवास्मै अस्मै तेजः तेजश्चक्षुः चक्षुरव अवरुन्धे रुन्ध इन्द्रियम् इन्द्रियम् वै वै वीर्यम् वीर्यम् थ्युं वृन्धे वृन्धे भ्रातृव्यः यजमानः यजमानो यजमानस्य अयजमानस्याध्वरकल्पाम् अध्वरकल्पाम् प्रति अध्वरकल्पामित्यध्वराकल्पाम् प्रतिनिः निर्भवेत् उपेद्भ्रातृव्ये भ्रातृव्ये यजमाने यजमानेन ना, नास्य अस्येन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् वृन्ते वृन्ते पुरा पुरा वाचः वाचः प्रवदितोः प्रवदितोर्मिः प्रवदितोरिति प्रावदितोः निर्वपेत् वेद्यावती यावत्येववाक् वाक्ताम् तावप्रोदिताम् अप्रोदिताम् भ्रातृर्यस्य अप्रोदितामित्यप्रापुदिताम् द्रव्यस्य वृन्दे वृन्दे ताम् तामस्य तस्य वाचम् वाचम् प्रवदन्तीम् प्रवदन्तेमन्याः प्रवदन्ते मितिप्रा वदन्ति अनन्यावाचः वाचो नो अनुप्रा प्रवदन्ति वदन्ति ताः ता इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् यजमाने यजमाने दधति दधत्याज्ञावैष्णवम् आज्ञावैष्णवमशालम् आज्ञा वैष्णवमित्याहाज्ञा वैष्णवम् अष्टागपालम्निः अष्टागपालमित्यष्टागपालम् निर्ववेद् ववेत् प्रातः श्रवणस्य प्रातःस्रवणस्य काले प्रातश्रवनस्य यदि सवनस्य आकाले सरस्वती आकाल इत्याहकाले सरस्वत्याज्यभागा आद्यभागा स्यात् स्याद्बालहस्पत्यः वार्यहस्पत्यश्चरुः चरुर्यद् यदष्टाकपालः अष्टाकपालो भवति अष्टाकपाल इत्यष्टाकपालः भवत्यष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरेत्यष्टाक्षराः गायत्री गायत्रम् गायत्रम् राजस्सवनम् खादःसवनमिति प्रादः सवनम् खादःसवनमेव कादःसवनमिति प्रादः सवनम् एव तेन तेना आप्नोति आप्नोत्याज्ञा वैष्णवम् आज्ञावैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्याज्ञा वैष्णवम् एकादशकपालम् निः एकादशकपालमित्येकादशकपालम् निर्ववेत् भवेन्माघ्यन्विनस्य माध्यन्विनस्य सवनस्य सवनस्याकाले आकाले सरस्वती आकाल इत्याकाले सरस्वत्याज्यभागा आद्यभागः स्यात् आज्यभागे त्याज्यभागः स्याद् बालहस्पत्यः बालहस्पत्यश्चरुः चरुर्यद् यदेकादशकपालः एकादशकपालो भवति स्याति एकादशकपाल इत्येकादशकपालः भवत्येकादशाक्षरा एकादशाक्षरात् त्रिष्टुप् एकादशाक्षरेत्येकादशा अक्षराः त्रिष्णप्रैष्टुभम् प्रैष्टुभम् माध्यन्दिनम् माध्यन्दिनभुम् सवनम् सवनम् माध्यन्दिनम् माध्यन्दिनमेव एव सवनम् सवनम् तेन तेनाप्नोति आप्नोत्याज्ञा वैष्णवम् आज्ञावैष्णवम् द्वादशकपालम् आज्ञा वैष्णवमित्याज्ञावैष्णवम् द्वादशकपालनिः द्वादशकपालमिति द्वादशकपालम् निर्वभे तृतीयसवनस्य तृतीयसवनस्य काले तृतीयसवनस्येति तृतीयसवनस्य आकाले सरस्वती आकाल इत्याकाले सरस्वत्याजभागः आद्यभागः स्यात् आद्यभागेत्याद्य भागः स्याद् बालहस्पत्यः बालहस्पत्यः शरुः करुर्यद् यद्वादशकपालः द्वादशकपालो भवति द्वादशकपाल इति भवति द्वादशाक्षरा द्वादशाक्षरा जगति द्वादशाक्षरेति द्वादशा अक्षरा जगति जागतम् जागतम् तृतीयसवनम् तृतीयसवनम् तृतीयसवनम् तृतीयसवनमिति तृतीया सवनम् तृतीयसवनमेव तृतीयसवनमिति आप्नोति देवताभिः देवताभिरेव एव देवताः देवता प्रतिचरति प्रतिचरति यज्ञेन प्रतिचरतीति प्रतिचलति यज्ञेन यज्ञम् यज्ञम् वाचा वाचा वाचम् वाचम् ब्रह्मणा ब्रह्मणा ब्रह्म ब्रह्मकपालैः कपालैरेव एव छन्दांसि छन्दागस्याप्नोति आप्नोति प्रोडाशैः प्रोडाशैः सवनानि सवनानि मैत्रावरुणम् मैत्रावरुणमेककपालम् मैत्रावरुणमिति मैत्रावरुणम् एककपालन्यः एककपालमित्येका कपालम् निरुपेद् उपेद्वशायैः वशायै काले काले या एव एवासौ असौ भ्रातृल्यस्य भ्रातृल्यस्य वशा पशानुबन्ध्याः मनोबन्ध्या सो मनोबन्धेत्यनोबन्ध्याः सो एव सो इति सो एवैषा एषैतस्य एतस्यैककपालः एककपालो भवति एककपाल इत्येका कपालः भवति न हि हि कपालैः कपालैः पशुम् पशुमर्हति अर्हत्याप्तुम् अरह आप्तुमित्याप्तुम् असा वादिद्यः आदिद्यो व्यरोचत अरोचत तस्मै तस्मै देवाः देवाः प्रायश्चित्तिम् प्रायश्चित्तिमैच्छन् ऐच्छन्दस्मै तस्मा एतम् एतकम् सोमा रौद्रम् सोमा रौद्रम् चरुम् सोमा रौद्रमिति सोमा तेनैव एवास्मिन् अस्मिन् रुचम् रुचमदधुः यो ब्रह्मवर्चसकामः ब्रह्मवर्चसकामः स्यात् ब्रह्मवर्चसकाम इति ब्रह्मवर्चसा कामः स्यात् तस्मै तस्मा एतम् एतम् सोमा रौद्रम् सोमा सोमा रौद्रमिति सोमा रौद्रम् चरुन्निः निर्वपेत् वपेत् सोमम् सोमम् चैव श स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति तौ तावेव एवास्मिन् अस्मिन् ब्रह्मवर्चसम् ब्रह्मवर्चसम् धत्तः ब्रह्मवर्चसमिति ब्रह्म वर्चसम् धत्तो ब्रह्मवर्चसी ब्रह्मवर्चस्येव ब्रह्मवर्चसीति ब्रह्मवर्चसी एव भवति भवति तिष्यापूर्णमासे तिष्यापूर्णमासेनिः शिष्या पूर्णमास इति शिष्या पूर्णमासे निर्वपेद् उपेद् रुद्रः वै वै शिष्यः सोमः पूर्णमासः पूर्णमासः साक्षात् पूर्णमास इति पूर्णामासः साक्षादेव साक्षादिति साक्षात् एव ब्रह्मवर्चसम् अवरुन्धे रुन्धे परिश्रुते परिश्रुते याजयति परिश्रितयति परेश्वरे याचयति ब्रह्मवर्क्षसस्य ब्रह्मवर्क्षसस्य परिगृहेत्यै ब्रह्मवर्चसस्य इति ब्रह्मवर्क्षसस्य परिगृहेत्यै श्वेतायै परिगृहेत्या इति परिगृहेत्यै श्वेतायै श्वेतवत्सायै श्वेतवत्सायै दुग्धम् श्वेतवत्साय इति श्वेतावत्सायै दुग्धम् वथितम् वथितमाज्यम् आज्यम् भवति भवत्याज्यम् आज्यम् रोक्षणम् प्रोक्षणमाद्येन प्रोक्षणमिति प्रावोक्षणम् आद्येन मार्जयन्ते मार्जयन्ते यावत् यावदेव एव ब्रह्मवर्चसम् ब्रह्मवर्चसम् तत् ब्रह्मवर्चसमिति करोति करोत्यति अधिब्रह्मवर्चसम् ब्रह्मवर्चसम् क्रियते ब्रह्मवर्चसमिति ब्रह्म वर्चसम् क्रियत दुश्चर्मा भवितोः दुश्चर्मेति दुः चर्मा भवितोरिति इति मानवी मानवी मा रुचौः मा इति मानवी रुचौ धाय्ये कुर्यात् धाये इति धाये कुर्याद्यत् दिद, यद्वै वै किम् किञ्च स मनुः मनुरवदत् भेषजम् भेषजम् भेषजमेव भेशचं, भेशचं, एवास्मै अस्मैकरोति करोति यदि यदि विभीयाद् विभीयाद् दुश्चर्मा दुश्चर्मा भविष्यामि दुश्चर्मेति दुहो चर्मा भविष्यामीति इति सोमापौष्णम् सोमापौष्णम् चरम् सोमापौष्णमिति सोमापौष्णम् चरणिः निर्वपेत् उपेत् सौम्यः सौम्यो वै त्वयि देवतया देवत पुरुषः पुरुषः पौष्णाः पौष्णाः पशवः पशवस्वयाः पौ� स्वयैव एवास्मै तस्मै देवतया देवतया पशुभिः पशुभिस्तचम् पशुभिरिति पशुभिः पुशम् करोति करोति न न दुश्चर्माः दुश्चर्मा भवति दोश्चर्मेति दुःचर्माः भवति सोमा रौद्रम् सोमा रौद्रञ्चरम् सोमा रौद्रमिति सोमा रौद्रम् रेतोथा इति रेतः अग्निः प्रजानाम् प्रजानाम् प्रजनयिता प्रजानामिति प्राजानाम् प्रजनयिता सोमः प्रजनयतेति प्राजनयता सोम एव एवास्मै अस्मै रेतः एतोदधाति तथाः अग्निः प्रजाम् प्रजाम् प्रजामिति प्राजाम् प्रजनयति विन्दतेः विन्दतेः प्रजाम् प्रजाम् सोमा रौद्रम् प्रजामिति प्राजाम् सोमा रौद्रम् चरम् सोमा रौद्रमिति सोमा रौद्रम् शण्ः निर्वपेद् वपेदभिचरन् अभितरन् सौम्यः अभितरन्नित्यभिचरन् सौम्यो वै वै देवतया पुरुषः पुरुष एषः एष यदग्निः अग्निः स्वायाः स्वाया एवैनम् एनम् देवतायै देवतायै निष्क्रीय निष्क्रीय रुद्राय निष्क्रीयेनिः क्रिय रुद्रायापि अपि दधाति दधाति जग, ताजकराजगार्तिम् आर्तिमा आर्च्छति पृच्छति सोमा रौद्रम् सोमारौद्रं सो रौद्रम् चरम् सोमा रौद्रमिति सोमा रौद्रम् शरणिः निर्भवेत् भवेद्योगामयावी ज्योगामयावी सोमम् ज्योगामयावीति ज्योगामयावी सोमम् वै वा पच्छत्यग्निम् अग्निम् <अग्डिकुं> शरीरम् <च्छाग्णिण> शरीरम् यस्य यस्य ज्योगज्योधामयति आमयति सोमात् सोमादेव देवास्य अस्य रसम् रसं निष्क्रीणाति निष्क्रीणात्यग्नेः निष्क्रीणातीति निः क्रीणाति अग्नेः शरीरम् शरीरमुत कुथयति यदितासो इतासुर्भवति इतासुरितितासुः भवति जीवति जीवत्येव एव सोमारुद्रयोः सोमारुद्रयोर्वै सोमारुद्रयोरिति सोमारुद्रयोः वा एतम् एतम् ग्रसितम् ग्रसितपम् होतार होतानिः निष्खिदति खिदति सः स ईश्वरः ईश्वरार्तिम् आर्तिमार्तोः आर्तोर्नड्वान् आर्तोरित्यार्तोः अनड्वार होत्राः होत्रादेयः देयो वह्निः वह्निर्वै वा अनड्वार अनड्वारो वह्निः वह्निर्होताः होता वह्निना वह्निनैव एव वह्निम् वह्निमात्मानम् आत्मानग्निस्पृणोति शृणोति सोमा रौद्रम् सोमा रौद्रम् चलम् सोमा रौद्रमिति सोमा रौद्रम् कामये तस्वे स्वेऽस्मै तस्मा आयतने आयतने भ्रातृव्यम् आयतन इत्यायतने भ्रातृव्यम् जनयेयम् जनयेयमिति इति वेदिम् वेदिम् परिगृह्य परिगृह्यार्थम् परिगृह्येति परिगृह्य अर्धमुद्धन्यात् उद्धन्यादर्धम् उद्धन्यादित्युत् अन्यात् अर्धम् न नार्धम् अर्धम् बर्हिषस्तृणीयात् स्तृणीयादर्धम् अर्धम् न नार्धम् अर्धमिध्मस्य विध्मस्याः अभ्यादध्यात् अभ्यादध्यादर्थम् अभ्यादध्यादित्यभि आदध्यात् अर्धम् न एव एवास्मै अस्मा आयतने आयतने भ्रातृव्यम् आयतन इत्याह आयतने भ्रातृव्यम् जनयति जनयतेति जनयति ऐन्द्रमेकादशकपालम् एकादशकपालन्निः एकादशकपालमित्येकादशाकपालम् निरुपेद उपेन्मारुतम् मारुतकम् सप्तकपालम् सप्तकपालम् ग्रामकामः सप्तकपालमिति सप्ताकपालम् ग्रामकाम इन्द्रम् ग्रामकाम इति ग्रामाकामः इन्द्रम् चैव एव भागधेयेन भागधेयेनोप भागधेयेनेति भागाधेयेन उपधावति भावस्मै अस्मै सजातान् सजातान् प्रा सजातानिति स जातान् प्रयच्छन्ति यच्छन्ति ग्रामी ग्राम्येव एव भवति भवत्या हवनीये आहवनीय ऐन्द्रम् आहवनीय इत्याहवनीये ऐन्द्रमधि अधिश्रयति श्रयति गार्हवत्ये गार्हवत्ये मारुतम् गार्हवत्य इति गार्हपत्ये मारुतम् पापवस्य सस्य मिधृत्यै पापवस्य सस्य इति पापावस्य सस्य विधृत्यै सप्तकपालः विधृत्य इति वेधृत्यै सप्तकपालो मारुतः सप्तकपाल इति सप्ताकपालः मारुतो भवति भवति सप्तगणाः सप्तगणा वै सप्तगणा सप्तागणाः वै मरुतः मरुतो गणशः गणश एव मलश सजातानव स जातानिति स जातान् अवरुन्धे वृन्धेऽनोच्यमाने अनोच्यमानः अनोच्यमान इत्यनोच्यमाने आसादयति साधयति भिशं, विषम् विषमेव एवास्मै अस्मानुवर्त्मानम् अनुवर्त्मानम् करोति अनुवर्त्मानमित्यनो वर्त्मानम् करोत्येताम् एतामेव एवनिः निर्वपेत् अपेद्यः यः कामयेत कामयेतक्षत्राय क्षत्राय च विषे विषे च समदम् समदम् दध्याम् समदमिति सामदम् दध्यामिति इत्यैन्द्रस्य ऐन्द्रस्यापद्यन् अपद्यम् ब्रूयात् अपद्यन्नित्यपाद्यन् ब्रूयादिन्द्राय इन्द्राया नु अनुब्रूहि ब्रूहेति इत्याश्राव्य आश्राव्य ब्रूयात् आश्राव्येत्याश्राव्य ब्रूयान्मरुतः मरुतो यज यजेति इति मारुतस्य मारुतस्यापद्यन् अवद्यन् रोजाद् अपद्यन्नित्यपाद्यन् ब्रूयान्मरुद्भ्यः मरुद्भ्यो न मरुद्भ्यरिति मरुदभ्यः अनम् ब्रूहि ब्रूहिति इत्याश्राव्य आश्राव्य ब्रूयाद् आश्राव्येत्याश्राव्य ब्रूयादिन्द्रम् इन्द्रम् च विजेति इति स्वे स्व एवैभ्यः एभ्यो भागधेये समदम् भागधेय इति भागाधेये समदम् तथाति समदमिति सामदम् तथापि पितृगुहाणाः पितृगुहाणास्तिष्ठन्ति पितृगृम्हाणा इति पितृगृहाणाः तिष्ठन्त्येताम् एतामेव येवनिः निर्वपेद् वपेद्यः यः कामयेत कामयेत कल्पेरन् कल्पेरन्निति इति यथा देवतम् यथा अवदाय यथा देवतम् यथा देवतम् यथा देवतमिति यथा देवतम् य चेद्भागधेयेन भागधेयेनैव भागधेयेनेति भागधेयेन एवैनान् एनान् यथायथम् यथायथम् कल्पयति यथायथमिति यथायथम् कल्पयति कल्पन्ते कल्पन्त एवैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालम्निः एकादशकपालमित्येकादशाकपालम् निर्वपेद् वपेद्वैश्वदेवम् वैश्वदेवम् द्वादशकपालम् वैश्वदेवमिति वैश्वा एवम् द्वादशकपालम् ग्रामकामः द्वादशकपालमिति द्वादशाकपालम् ग्रामकाम इन्द्रम् ग्रामकाम इति ग्रामाकामः इन्द्रम् चैव एव विश्वान् विश्वाकश्च च देवान् देवान् स्वेन स्वेन भागधेयेनेति भागाधेयेन उपधावति धावति ते तदेव एवास्मै अस्मै स जातान् सजातान् प्र सजातानिति स जातान् ग्राम्येव एव भवति भवत्यैन्द्रस्य ऐन्द्रस्यापदाय अवदाय वैश्वदेवस्य अवदाय इत्यपादाय वैश्वदेवस्या वा वैश्वदेवस्येति वैश्वादेवस्य अपद्येत् द्येदथा अथेन्द्रस्य हरेन्द्रस्योपरिष्टाद् उपरिष्टादिन्द्रियेण इन्द्रियेणैव एवास्मैः अस्माभयतः उभयतः स जातान् सजातान् परि सजातानिति स जातान् परिगृह्णाति गृह्णात्युपाधाय्यपूर्वजम् उपाधाय्यपूर्वजम् वा सः उपाधाय्यम्ुपयमित्युपाधाय्या पूर्वयम् वासो दक्षिणा दक्षिणा स जातानाम् जातानामुपहित्यै जातानामिति पहित्य सा उपहित्या इत्युपाहित्यै पृष्ण्यै दुग्धे दुग्धे प्रय्यङ्गलम् प्रय्यङ्गलम् चरम् चरण्यः निर्वपेद् उपेन्मरुद्भ्यः मरुद्भ्यो ग्रामगामः मरुद्भ्यैति मरुतेभ्यः ग्रामकामः प्रश्नियै ग्रामकामः इति ग्रामकामः प्रश्नियै वै वै पयसः पयसो जाताः जाताः प्रश्नियै प्रश्नियै प्रियङ्गवः मारुताः मारुताः खलु खलु वै देवतया देवतया स जाताः सजाता मरुतः सजाता इति स जाताः एव स्वेन स्वेन भागधेयेन उपधावति धावति तदेव एवास्मै अस्मै स जातान् रातान् वा रातानिति स जातान् प्रयच्छन्ति यच्छन्ति ग्रामी ग्राम्येव एव भवति भवति प्रियवती प्रियवती याज्यानवाक्ये प्रियवती इति प्रियवती याज्यानवाक्ये भवतः याज्यानुवाक्ये याज्या अनुवाक्ये भवतः प्रियम् प्रियमेव एवैनम् एनम् समानानाम् समानानाम् करोति करोति द्विपदा द्विपदा पुरोऽनवाक्या द्विपदेति द्वीपदा रोणवाक्या भवति रोणवाक्येति पुरः अनुवाक्या भवति द्विपदः द्विपद एव द्विपदैति द्वीपदः एवावृन्धे वृन्धे चतुष्पदा चतुष्पदा चतुष्पदे तिचतुः पदा याज्याचतुष्पदः चतुष्पदेव चतुष्पदे चतुः पदा एव पशून् पशूनव अवरुन्धे संयत्ताः देवासुरा इति देवासुराः संयत्ता आसन् संयता इति सांताः आसन् ते ते देवाः देवामिथः मिथो विप्रियाः विप्रियाः आसन्तेऽन्यः अन्यो अन्यस्मै अन्यस्मै जैश्चाय जैष्याय अतिष्ठमानाः चतुर्धा वि चतुर्थेरिचतुर्भोधा व्यक्रामन् अक्रामन्नग्निः अग्निर्वसुभिः वसुभिः सोमः वसुभिरिति वसोभिः वसो सो वसो सोमो रुद्रैः रुद्रैरिन्द्रः मरुद्भिर्वणः मरुद्भिरिति मरुद्भिः वरुणादित्यैः सह स इन्द्रः इन्द्रः प्रजापतिम् प्रजापतिमुप उपाधावत् तथावत्तम् तमेतया एतया सान्या सञ्ज्ञान्या याचयत् सम् ज्ञान्याः अयाजयदग्नये अग्नये वसुमते वसुमते पुरोडाशम् वसुमत इति वसुमते पुरोडाशमष्टाकपालम् अष्टाकपालम् निः अवपत्सोमाय सोमाय रुद्रवते रुद्रवदे चलम् रुद्रावते चरुमिन्द्राय इन्द्राय मरुत्वते मरुत्वते पुरोडाशम् पुरोडाशमेकादशकपालम् एकादशकपालम् वरुणाय एकादशकपालमित्येकादशकपालम् आदित्यवते चलम् आदित्यवत इत्यादित्यावते चरन्ततः तरो वा इन्द्रम् इन्द्रम् देवाः देवाज्यैष्याय जैष्यायाभि अभिसम् समजानत अजानतयः समानैः समानैर्मिथः मिथो विप्रियः विप्रियः स्यात् विप्रिय इति विप्रियः स्यात्तम् तमेतया एतया सम् वसुमते वसुमते प्ररोडाशम् वसुमत इति वसुमतेः अष्टागपालनिः अष्टाकपालमित्यष्टाकपालम् निर्भपेद् भवेत् सोमाय सोमाय रुद्रवते रुद्रवते चरम् रुद्रवद रुद्रावते चरुमिन्द्राय इन्द्राय मरुत्वदे मरुत्वदे प्ररोडाशम् प्रोडाशमेकादशकपालम् एकादशकपालम् वरुणाय एकादशकपालमित्येकादशाकपालम् वरुणायादित्यवते आदित्यपते चरम् आदित्यवत इत्यादित्याः शरमिन्द्रम् इन्द्रमेव एवैनम् एनम् भूतम् भूतम् ज्येष्ठ्याय ज्येष्ठ्याय समानाः समाना अभि अभिसम् सञ्जानते जानते वसिष्ठः वसिष्ठः समानानाम् समानानाम् भवति भवतीति भवति इति हिरण्यगर्भः आपोह हयत् यः प्रजापते प्रजापत इति प्रजापतेः स वेद वेदपुत्रः पुत्रः पितरम् पितरगुंसः स मातरम् मातरगुंसः स सूनुः सोनुर्भुवद् भुवत्सः स भुवद् भुवत्पुनर्मघः पुनर्मघ इति पुनः मघः सद्याम् द्यामोर्णोत् सुवत्सः स विश्वा भुवः भुवोः अभवद् अभवत् सः स आभवद् अभवदित्यभवद् उदु नृत्यम् किञ्चित्रम् चित्रमिति चित्रम् स प्रत्नवत् प्रत्नवन्नवीयसा रत्नवदिति प्रत्नवत् नवीयसाग्नेः अग्नेः ज्युम्नेन ज्युम्नेन संयताः संयतेति संयताः बृहत्ततन्थ तदन्थभालुनाः भालुनेति भालुनाः निकाव्याः काव्यावेधसः वेधसः शश्वतः शश्वतस्कः करहस्तेः हस्ते दधानः दधानो नर्याः नर्या, नर्या पुरोणि पुरोणीति पुरोणि अग्निर्भुवद् भवद्रीपतिः रीपतिलयीणाम् रीपतिरिदिलयीपतिः प्रयीणागुंसत्रा सत्राचक्राणः चक्राणो अमृतानि अमृतानि विश्वाः विश्वेति विश्वाः हिरण्यपाणिभूतयेः हिरण्यपाणिमिति हिरण्यापाणिम् ऊतये सवितारम् सवितारमुप उपह्वये ह्वय इति ह्वये स चेत्ताः चेत्ता देवताः देवता पदम् पदमिति पदम् वाममद्य अद्य स विदः सविदर्वामम् वाममो वर्षः श्वो द्विवेदिवे द्विवेदिवे वामम् द्विवेदिवै दिवे दिवे वाममस्मभ्यम् अस्मभ्यम् साभीः अस्मभ्यमित्यस्माभ्यम् सा वीरिति सा क्षयस्य क्षयस्य देव देवभूरेः भूरेरया भूरे रया धिया धिया वामभाजः वामभाजः श्याम वामभाज इति वामाभाजः श्यामेति श्याम बडित्था इत्थापर्वतानाम् पर्वतानाम् छिद्रम् छिद्रम् बिभर्षि प्रया या भूमि भूमिर्प्रवर्तवति प्रवर्तवति मह्ना मह्ना जिनोषि जिनोषि महिनि महिनीति महिनि स्तोमासस्त्वा विचारिणि विचारिणि प्रति विचारिणीति विचारिणि प्रतिष्ठोभन्ते स्तोभन्त्यक्तुभिः अक्तुभिरित्यक्तोभिः भे, अक्तु प्रया या वाजम् वाजम्ना न हेषन्तम् हेषन्तम् भेरुम् ैरुमस्यसि अस्य अर्जुनि अर्जुनीत्यर्जुनि ऋदुदरेण सख्याः सख्या सचेय सचेयः यो माना, माना हरिष्येद् ऋष्येद्धर्यश्व हर्यश्ववीरः हर्यश्वेति हरि अश्व पीत इति पीतः अयञ्यः यः सोमः सोमोऽधायि निधाय यस्मे यधायीति अस्मे तस्मै अस्मे इत्यस्मे तस्मान्द्रम् इन्द्रम् प्रतिनम् प्रतिनमेमि प्रतिनमिति प्रातिनम् एम् अच्छेत्यच्छ आपान्तमन्यस्त्रिपलप्रभर्मा आपान्तमन्युरित्यापान्तामन्युः त्रिपलप्रभर्मा धुनिः त्रिपलप्रभर्मेति त्रिपला प्रभर्मा धुनिः शिमीवान् शिमीवान् शरुमान् शरुमागमृजीषि शरुमानिति शरुमान् ऋजीषि त्र्युजीषि सोमो विश्वानि विश्वान्यतसा तसा वनानि वनानि नर्वार् अर्वागिन्द्रम् इन्द्रम् प्रतिमानानि प्रतिमानानि देभोः प्रतिमानानीति दे प्रतिमानानि रेभुरिति दे देभुः प्रसुवानः सुवानः सोमः सोमऋतयोः रुत ऋतयुश्चिकेत ऋतयुर्चितायुः चिकेतेन्द्राय इन्द्रायनि ब्रह्म ब्रह्म जमदग्निः जमदग्निरर्चन् अर्चन्नित्यर्चन् right वृषा गन्ता गन्तासि असि शवसः शवसस्तुरस्य स्तुरस्यान्तः ृणते धर्त्रम् धर्त्रम् दृगम्ह दृगम्हेति दृगम्ह सबाधस्ते सबाध इति स बाधः कृष्मयम् कृष्मयम् च ब्रह्म ब्रह्म नरः नरो ब्रह्मकृतः ब्रह्मकृतः सपर्यन् सपर्यन्निति सपर्यन् अर्को वायत् यतुरदे तुरदे सोमचक्षाः सोमचक्षास्तत्र सोमचक्षाः इति सोमा चक्षाः तत्र यत् इदिन्द्रः इन्द्रो दधते दधते पृत्सु वृत्सु तुल्याम् पृतसु तुल्यामिति तुल्याम् द्विषक्ते ते विष्णोः विष्णवासः वासः आकृणोमि कृणोमि तत् तन्मेः मे जुषस्व जुषस्व शिपिविष्ट शिपिविष्टहव्यम् शिपिविष्टेति शिपिविष्ट हव्यमिति हव्यम् वर्धम् सुष्ठुतयो गिरः सुष्ठुतय इति सोऽस्तुतयः गिरो मे मे यूयम् यूयम् पाद पादः स्वस्तिभिः स्वस्तिभिः सदाः स्वस्तिभिरिति स्वस्थेभिः सदा स्वस्थे स्वस्थे स्वस्थे नः नैविनः प्रतत् ते, ते अद्य अद्य शिविष्ट शिविष्ट नाम शिपिविष्टयति शिपे विष्ठ नामार्यः अर्यशुपुंसामि वजनानि वजनानि विद्वान् विद्वानिति विद्वान् तन्त्वा त्वा गृणामि गृणामि तपसम् तपसमतवीयान् अतवीयान् क्षयन्द्रम् क्षयन्द्रमस्य अस्य रजसः रजसः परागे पराग इति परागे किमित् इत्ये हे विष्णो विष्णो परिलक्ष्यम् विष्णो इति विष्णो परिरक्ष्यम् भूत् परिरक्ष्यमिति यद्वपक्षे वपक्षे शिपिविष्टः शिपिविष्टो अस्मि शिपिविष्ट इति विष्टः अस्मि इत्यस्मि वर्पो अस्मद् अस्मदप अपगूहः गूह एतत् यदन्यरूपः अन्यरूपः अन्यरू समिथे अन्यरूप इत्यन्यारूपः इति संविधे बभूथेति अग्नेदाः ना दाशुषे दाशुषेरयिम् लयिम् वीरवन्तम् परेणसम् वीरवन्तमिति वीरावन्तम् परेणसमिति परेणसम् शिशीहिनः असोनुमतः सोनुमद इति सोनो मदः दानः नो अग्ने अग्ने शतिनः शतिनो दाः दास्सहस्रिणः सहस्रिणो धुरः धुरो न प्रवाजम् वाजगश्रुत्यै श्रुत्या अप अपावृधि वृधेतिवृधि प्राचीन्या वापृथिवी द्यावापृथिवी ब्रह्मणा यावापृथिवी दि द्यावापृथिवी ब्रह्मणा कृधि कृधिसुवः सुवर्ण न शुक्रम् शुक्रमुषसः उषसो विदिद्युतुः विद्युत्रिति विद्युतुः अग्निर्दाः दाद्रविणम् द्रविणम् वीरपेषाः वीरपेषा अग्निः वीरपेशा इति वीरपेषाः अग्निर्षिम् ऋषिञः यः सहस्राः सहस्रा सनोति सनोतीति अग्निर्द्वि दिवि हव्यम् हव्यमा आततान राणाग्नेः अग्नेर्धामानि अगने धामानिभृता विभृता पुरुत्रा विभृदे भृता वृद्रेति मानः नो मर्धीः मर्धीरा आतु तूभर भरेति भर घृतन्न न पोतनम् पोतन्तनूः धनूररेपाः रेपाश्रुचि हे रुक्मः रुक्मो न रोचत रोचतस्वधावः स्वधाव इति स्वभावः उभे सुश्चन्द्र उभे इत्युभे श्चन्द्रसर्पिषः श्चन्द्र इति सुन्द्र सर्पिषो दर्वी दर्वी श्रीणीषे दर्वी इति दर्वी श्रीणीष उतो नः उतो इत्युतो न उत् उत्पबूर्याः शवसस्पतेः पतैषम् निषग्रस्तोत्रभ्यः स्तोत्रभ्यः स्तोत्रभ्य इति स्तोत्रेभ्यः आभर भरेति भर वायोशतम् वायो युजिवायो शतकम् हरीणाम् हरीणाम् युवस्व युवस्वपोर्ष्याणाम् पोष्याणामिति पोर्ष्याणाम् उत वाते हे सहस्रिणः सहस्रिणो रथः रथः आयातु यातुपाचसा पाचसेतिपाचसा त्रयाभिः याभिर्यासि प्या यासिदाश्वागुंसम् आश्वागुंसमच्छा अच्छा नियुद्भिः नियुद्भिर्वायो नियुद्भिरिति नियुद्भिः वायविष्टये इष्टये दुरोणे दुरोण इति दुहो वोणे इनः रयिम् रयिम् सुभोजसम् सुभोजसंयुव सुभोजसमिति सोभोजसम् युभेह इह वीरवद्गव्यम् वीरवदिति वीरवत् गव्यमश्रियम् अश्रियम् च राधः राध इति राधः रेवतीनः असधमादः सधमाद इन्द्रेः सधमाद इति सधामादः इन्द्रे सन्तु सन्तु तुविवाजाः तुविवाजा इति तुविवाजाः क्षुमन्तो याभिः गाभिर्मदेमदेति मदेम स्तोता स्यात् स्यात्त्वावदः त्वावतो मघोनः त्वावद इति त्वावतः मघोन इति मघोनः प्रेद इदु उ हरिवः हरिवः श्रुतस्य हरिव इति हरिवः